अह्ना यदेनः क्रियते इन्द्रिये मनसापि वा ज्ञानादज्ञानतो वापि प्रकरोति नरश्च यत् तन्महाभारताख्यानम् श्रुत्वैव प्रविलीयते भरतानाम् महज्जन्म उच्यते निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते भरतानाम् यतश्चायमितिहासो महाद्भुतः महतोह्येन सोमर्त्यान् मोचयेदनुकीर्तितः त्रिभिर्वर्षैर्लब्धकामः कृष्णद्वैपायनो मुनिः नित्योत्थितः शुचिः शक्तो महाभारतमादितः तपो तस्मान्नियमसंयुक्तैः श्रोतव्यम् ब्राह्मणैरिदम् कृष्ण प्रोक्तामिमाम् पुण्याम् भारतीमुत्तमाम् कथाम् श्रावयिष्यन्ति ये विप्राये च श्रोष्यन्ति मानवाः सर्वथा वर्तमाना वै न नरेण धर्मकामेन सर्व श्रोतव्य इत्यपि निखिलेनेतिहासोऽयम् ततः सिद्धिमवाप्नुयात् न ताम् स्वर्गगतिम् प्राप्य तुष्टिम् प्राप्नोति मानवः याम् श्रुत्वैव महापुण्यमितिहासमुपाश्नुते शृण्व्राद्धः पुण्यशीलः श्रावयश्चेदमद्भुतम्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 य भारतं भारतम् वाचकाय प्रयच्छति तेन सर्वामही दत्ता भवेत् सागरमेखला पारीक्षितकथाम् दिव्यां पुन्याय विजयाय च कथ्यमानाम् मया कृत्स्नाम् शृणुहर्षकरीमिमाम् त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः महाभारतमाख्यानम् कृतवानिदमद्भुतम् धर्मे चार्थे च चा कामे च मोक्षे च भरतर्षभ यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् इति श्रीमन्महाभारते आदिपर्वणि अंशावतरणपर्वणि महाभारतप्रशंसायाम् द्विषष्टितमोऽध्यायः